त्वारिंशः सर्गः एवमस्मि तदा मुक्तः कथञ्चित्तेन संयुगे इदानीमपि यद्वृत्तम् तच्छृणुष्व यदुत्तरम् राक्षसाभ्यामहन्द्वाभ्याम् निर्विण्णस्तथा कृतः सहितो मृगरूपाभ्याम् प्रविष्टो दण्डकावने दीप्तजिह्वो महादंष्ट्रस्तीक्ष्णशृङ्गो महाबलः व्यचरम् दण्डकारण्यम् मां भक्षो महामृगः अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण अत्यन्तघोरोऽ्यचरंस्तापसां स्तान्प्रदर्शयन् निहत्यदण्डकारण्ये तापसान् धर्मचारिणः रुधिराणिपिपुंस्तेषाम् तन्मांसानि च भक्षयन् ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान् तदा रुधिरमत्तोऽहम् व्यचरम् दण्डकावनम् तदाहम् दण्डकारण्ये विचरम् धर्मदूषकः आसादयम् तदा रामम् तापसम् धर्ममाश्रितम् वै देहीम् च महाभागाम् लक्ष्मणम् च महारथम् तापसम् नियताहारम् सर्वभूतहिते रथम् सोऽहम् वनगतम् रामम् पसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् अभ्यधावम् सुसङ्क्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः जिघाम् सुरकृतप्रज्ञस्तम् प्रहारमनुस्मरन् तेन त्यक्तास्त्रयो बाणाः शिताः विकर्ष्य सुमहच्चापम् सुपर्णानिलतुल्यगाः ते सु रक्तभोजनाः आजग्मुः सहिताः सर्वे त्रयः सन्नतपर्वणः पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा समुत्क्रान्तस्ततो मुक्तस्ताबुभूराक्षसौ हतौ शरेण मुक्तो रामस्य कथञ्चित् प्राप्य हिह इह प्रव्राजितो युक्तस्तापसोऽहम् समाहितः वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम् गृहत धनुष राशहस्तवाकम सहस्रा भीत पशा रावण राम भूतरण्य प्रतिभाति मे राम बि पश्या रहीक्षसेरा दृष्ट् स्वनगत रा भ्रमा विचेतन रखादी नात्र रत्नानि चरथाश्चैव पित्रा सञ्जनयन्ति मे अहम् तस्य प्रभावज्ञो न युद्धम् ते ख्षमं रने न ते क्षमम् बलिम्बा नमुचिम्बापि हन्याद्धिरघुनन्दनः रामेण युध्य स्व क्षमाम् वा कुरु यदि माम् द्रष्टुमिच्छसि बहवः लोके युक्ता धर्ममनुष्ठिताः परेशाम पराधेन स परिच्छदाह सोहं परापराधेन विनशेयम् निशाचर कुरु यत्ते क्षमम् तत्त्वमहम् वै रामश्चहि हि महातेज महासत्त्वो महाबलः अपि राक्षसलोकस्य हि यदि शूर्पणखा हेतोर्जनस्थानगतः खरः अतिवृत्तो हतः पूर्वम् रामेणा क्लिष्टकर्मणा अत्र ब्रूहि यथा तत्त्वम् को रामस्य व्यतिक्रमः इदम् वचो बन्धुहितार्थिना मया यदि नाभिपत्स्यसे स बान्धवस्त्यक्ष्यसि जीवितम् रणे हतोऽद्य रामेण शरैर जिम्भगैः आदिकाव्ये अरण्यकाण्डे एकोनचत्वारिंशत् सर्गः